नारदपुराणम् पूर्वार्थम् अध्यायम् सिक्स्टिफोर् सनत्कुमार उवाच अथ जीवस्य पाश्चौखेदना येष्ठसिद्धिदं दीक्षाविधिं प्रवक्ष्यामि मन्त्रसामर्थ्यदायकं दिव्यं भावं यदो दद्याक्षिणुयाद्दुरितानि च अधो दीक्षे दिसा प्रोक्ता सर्वागमविशारदैः मननं सर्ववेदित्वं त्राणं संकार्यनुग्रहः मननात्राण धर्मत्वान्मन्त्र इत्यभिधीयते स्त्री पुं न पुंसकात्मानस्ते मन्त्रास्तु त्रिधा मदाः स्त्रीमन्त्रास्तु द्विष्ठां तास्युः पुं फटं तकाः mm -hmm. क्लीबाश्चैव नमों तास्योर्मन्त्राणां जादय पुं दैवा पुं दैवतास्तु मन्त्रास्योर्विद्यास्त्री दैवता मदाः षट्क्रमस्तु प्रशस्तास्ते मनवस्त्रिविधा पुनः तारान्त्यरेफ स्वाहस्तु स्वाहास्तु तत्राग्नेयाः समीचीताः सौम्या भृगुष बीजा कथित मुने अग्निष्षोत्म काम मंत्रे मनीषिभचाने श्वसने सौम्या प्रबु्यं वा मे वहदिते सर्वे मन्त्रा प्रबुध्यं ते वा यौ नाडिद्वया श्रुते स्वापकाले तु मन्त्रस्य जपोन्नर्थफलप्रदः प्रत्येकं मन्त्रमुञ्च नाव्यानां तान् समुञ्जरेद अनुलोमे बिन्दुयुक्तान् विलोमे सर्गसंयुतान् जप्तो यदि स देवं प्रबुद्धः क्षिप्रसिद्धिदः अनया मालया जप्तो दुष्टमन्त्रोऽपि सिध्यति क्रूरे कर्मणि चाग्नेया सौम्या सौम्या सौम्यफलप्रदाः शान्तज्ञानेदि रौद्रेयशान्तिसमन्वितः शान्तोऽभिौद्रतामेधि हुं फट्पल्लवयो जनाद् छिन्नाधिदोषयुक्तास्ते नैव रक्षं दि साधकम् छिन्नो रुद्रशक्तिहीनस्ततश्चैव पराङ्मुखः कर्महीनो नेत्रहीनः दग्धस्रस्तश्च भीदश्च मलिनश्च तिरस्कृतः वेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूर्च्छितः हदवीर्यो भ्रान्दसंज्ञः प्रध्वस्तो बालकस्तथा कुमारोधयुवप्रौढो वृद्धो निस्त्रिंशकस्तथा निर्बीजसिद्विहीनश्च मन्दकूडो निरंशकः सत्त्वहीनकेकरश्च बीजहीनश्च धूमितः आलिङ्गिदो मोहितश्चक्षुधार्थश्चादिदीप्तकः अङ्गहीनो दिक्रुद्धश्चादिक्रूरो व्रीडितस्तद्धा प्रशान्तमानसस्थानभ्रष्टश्च विकलस्तथा अधिवृद्धोधिनिःस्नेहः पीडितश्च तथा पुनः दोषाह्यदे समाख्यादा वक्ष्यामेषां च लक्षणं संयुक्तं वा वियुक्तं वा त्रिधा वा स्वरसंयुतम् मनोर्यस्यादि मध्यान्ते वह्निबीजं तथोच्यते चतुर्धा पञ्चथा वापि स मन्द्रश्चिन्नसंज्ञकः मनोर्यस्यादि मध्यान्ते भू सदुरुद्धो मनुज्ञेयो ह्यतिक्लेशेन सिद्धिदः तारवर्मत्र या लक्ष्मीरेवं हीनस्तु यो मनुः शक्तिहीनः स विज्ञेयश्चिरकालफलप्रदः पमबीजं मुखे मा या ह्यन्दे चैवाङ्गुशं तथा असौ पराङ्मुखो ज्ञेयो भजता चिसीद दा, आदिमध्यावसन सकारो दृश्य से यदि स मंद्रो बधिप्रोक्त कष्ट फलप्रद पंचाण यदि रेफर्कबिंदुवर्जितग्रह नेत्र विज्ञेय क्लेशेना भी न सिद्धि आदिमध्यावसानेषु हंसप्रासादवाग्भवौ हंसें दुर्वासकारो वा फकारो वर्म वा पुनः मा प्रा नामामि स कीलितः एवं यस्मिन्नस्त्रलकारकौ न विद्येते समन्त्रस्तु स्तम्भिस्तिरोधकृद अग्निपवनसंयुक्तो मनोर्यस्य दुमूर्धनि ससार्णो सा दृश्यते यस्तु स मन्त्रो दग्धसंज्ञक्रं द्वाभ्यां त्रिभि षड्भिरष्टाभिर्दृश्यते रेः त्रस्तः स मन्त्रो विज्ञेयो मुखे तारविवर्जितः हकारशक्तिरथवाभिदो हा। मन्त्रः स एव हि मलिनस्तु स विज्ञेयो ह्यदिक्लेशेन दारण ये मनोर्म्ये मूर्ध्न क्रोधयुगम तथा अस्त्र चास्ति सुतिरस्कृत उदीद मो म्योज हृदय शीर्षे वषडम येदि मंत्रस्याज्य क्लिष्टफल त्र्यक्षरो हंसहीनो यः सुषुप्तकीर्तितस्तु सह विद्यावाप्यथवा मन्द्रो भवेत्सप्तदशाक्षरः षट्कारपञ्चकाधियो मदोन्मत्तस्तु सस्मृदः यस्य मध्ये स्थितं चास्रं स मन्द्रो मूर्छितस्मृदः हदवीयस्य उच्यते मन्त्रस्यादौजमध्येजमूर्ध्नि चास्रचतुष्टयम् चा ज्ञातव्योभ्रान्त इत्येष यस्यादष्टादशाक्षरः पुनर्विंशतिवर्णो वा यो मन्त्रस्मरसंयुधः प्रलेखा कुंस बीजाढ्य प्रध्वस्तः कथ्यते सप्तार्णो बालमन्त्रस्तु कुमारो वसुवर्णवान् षोडशार्णो युवा प्रौढश्चत्वारिंशतिषष्टिवर्णश्चापि चतुश्शताक्षरो मन्त्रो वृद्ध इत्यभिधीयते नवार्णस्तारसं युक्तो मन्त्रो निस्त्रिंश उच्यते यस्यान्ते हृदयं प्रोक्तं शिरो मन्दोधमध्यगः शिख वर्मच यस्यान्ते नेत्रमस्रं च दृश्यते शिवशक्त्यार्णहीनो वा निर्बीजसमनुस्मृतः आद्यन्तमध्ये फट्कारसोठा यस्मिन् प्रदृश्यते स मनुस्सिद्धिः न स्यान्मन्तःपङ्क्त्यक्षरो कूडयकाक्षरो मन्त्रस्य एवोक्तो निरंशकः द्विवर्णसत्त्वहीन केकरश्चतुरक्षरः षड्वर्णो बीजहीनो वा सार्धसप्ताक्षरोऽपि वा सार्धद्वादशवर्णो वा धूमिदोर्निदितस्तु सः सार्धबीजत्रयुधो मन्त्रो विंशतिवर्णवान् त्रिंशद्वर्णश्चैकविंशद्वर्णश्चार्लिङ्गितस्तु सः यो मन्त्रो दन्तवर्णस्तु मोक्षितः सधुकीर्तितः वा सप्तविंशतिवर्णवान् शुद्धार्थस्सधुविज्ञेयो मन्त्रसिद्धिविवर्जितः एकादशाक्षरो वापि पञ्चविंशतिवर्णकः त्रयोर्विंशतिवर्णो वा स षड्विंशत्यक्षरो वापि षट्त्रिंशद्वर्णं कोऽपि वा एकोनत्रिंशदर्नो वा मन्द्रोहीनाङ्गकस्मृदः अष्टाविंशतिवर्णो वा तथैकत्रिंशदर्णकः अधिक्रूरसविज्ञेयो किलकर्मसु गर्हितः चत्वारिंशत्समारभ्य त्रिष्ट्यस्तु यो मनु अक्षरा सदु विज्ञेयसर्वकर्मसुन नक्ष पंचष्ट्यक्षराजेया वै शमा पंचष्ट्यन आरभ्य नवनंदअक्षव ये मन्त्रास्ते तु विज्ञेयास्थानभ्रष्टा मुनीश्वर त्रयोदशार्ना ये मन्त्रास्तिध्यर्नाश्च तथा पुनः विकसास्ते समाख्यादाः सर्वतन्त्रविशारदैः शतं सार्धशतं वापि शतद्वयमधापि वा द्विनवत्यगहिनो वा शतत्रयमद्धापि वा ये मन्त्रा वर्णसङ्ख्याका निस्नेहास्ते प्रकीर्तिताः चतुश्शतं समारभ्य सहस्रार्णवधिद्विज अधिवृद्धा प्रयोगेषु शिथिलास्ते समीरिताः सहस्रवर्णदधिका मन्त्रास्ते पीडिताह्वयाः तद्वर्ध्वं चैव ये मन्त्रास्तोत्ररूपास्तु ते स्मृताः एवं विधा मनवो दोषसंयुधाः दोषा नेदानविज्ञाय मन्त्रा नेदाञ्जपन्ति सिद्धिर्नजायदेतेषां कल्पकोडिशतैरपि चिन्नादिदोषदुष्टानां मन्त्राणां साधनं ब्रुवे योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः यं कञ्चिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः सव्यपार्ष्णिबुधे स्थाप्य दक्षिणं च ध्वजोपरि योनिमुद्रा बन्ध एवं भवेदासनमुत्तमम् अन्योऽप्यत्र प्रकारोऽस्ति योनिमुद्रा निबन्धने तदग्रे सरहस्यं ते कथयिष्यामि नारद पारम्पर्यक्रमप्राप्तो नित्यानुष्ठानतत्परः कुर्वनुज्ञारद श्रीमानभिषेकसमन्विदः सुन्दरसुमुखशान्धकुलीनसुलभो वशी मन्द्रस्तत्रार्थतत्त्वज्ञो निग्रहानुग्रहक्षमः निरपेक्षो मुनिर्धान्तो विचक्षणः तत्त्वनिष्कासने दक्षो विनयेजसुवेशवान् आश्रमे ध्याननिरगः संशयच्चित् सुबुद्धिमान् नित्यानुष्ठानसंयोक्तस्त्वाचार्य परिकीर्तितः शान्दो विनीतशुद्धात्मा साधनोपेदश्रद्धवान् सुस्थिराशयः शुद्धदेहोन्नपानद्यैर्धार्मिकशुद्धमानसः दृढव्रत समाचारकृतज्ञपापभीरुकः गुरुध्यानस्तुतिकधा सेवनाशक्तमानसः एवंविधो भावे गुरु शिष्य स्वयथ गुरदुखद्री बृहन्नादीयपुराणे पूर्वभागे बृहदुपाख्याृतीय पाद चतमोध्याय ओम